वैशंपायन उवाच आकष्णमाणे वसने द्रौपद्याि हरी द्रौपदुवाचात मयाविषेन पुरा गी महात्मना स्मर्तव्यो भगवान संतव्यो वैशंपायन उवाच गोविन्देति समाभाष्यकृष्णेति च पुनः पुनः मनसा चिन्तयामास देवन्नारायणं प्रभुम् आपस्वभयदङ्कृष्णल्लोकानां प्रपितामहम् गोविन्दद्वारकावासिन्कृष्णगोपीजनप्रिय कौरवैः परिभूतां मां किं न जानासि केशव हे नाथ हे रमानाथ व्रजनाथार्तिनाशन कौरवार्णवमग्नां मामुद्धरस्वजनार्दन कृष्णकृष्णमहायोगिन्विश्वात्मन्विश्वभावन प्रपन्नां पाहि गोविन्दकुरुमध्येवसीदतीम् इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् पारुददुःखिता राजन्मुखमाच्छाद्यभामिनी याज्ञसेन्या वच श्रुत्वा कृष्णो गह्वरितोऽभवत् त्यक्त्वा शय्यासनं पद्भ्यां कृपालुः कृपयाभ्यगात् क्रुपा कृष्णञ्च विष्णुञ्च हरिन्दरं च त्राणाय विक्रोशति याज्ञसेनी ततस्तु धर्मोऽन्तरितो महात्मा समावृणो विविधैः स्वस्त्रैः आकृष्यमाणे वसने द्रौपद्यास्तु विशाम्पते तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः नानारागविरागाणि वसनान्यथ वै प्रभो प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात् ततो हलहला शब्दस्तत्रासीद्घोरदर्शनः तदद्भुततमल्लोको वीक्ष्य सद्वे महीभृतः शशं सुद्रौपदीन् तत्र कुत्सन्तोद्धृतराष्ट्रजम् शशापतत्र भीमस्तु राजमध्येद्भृहस्वनः क्रोधाद्विस्फुरमाणौष्ठो विनिष्पिष्य करे